व्याधिनेभ्यो विविध्यन्तेभ्यः आव्याधिनेभ्य इत्या व्याधिनेभ्यः विविध्यन्तेभ्यश्च विविध्यन्तेभ्य इति विध्यन्तेभ्यः सवः मो नमः नमो नमः नम उगणाभ्यः गणाभ्यस्रगम् हतीभ्यः स्रगम् हतीभ्यश्च शवः गो नमः नमो नमः नमो ग्रत्सेभ्यः द्रत्सेभ्यो ग्रत्सपदेभ्यः ग्रत्सपदेभ्यश्च ग्रत्सपदेभ्य इति ग्रत्सपति यः शवः गो नमः नमो नमः नमो व्राते एभ्यः भ्राते एभ्यो व्रातपदेभ्यः भ्रातपदेभ्यश्च भ्रातपदेभ्य इति व्रातपति ह्यः शवः वो नमः नमो नमः नमो गणेभ्यः गणेभ्यो गणपतिभ्यः गणपतेभ्यश्च गणपतेभ्य इति गणपति यः चवः वो नमः नमो नमः नमो विरूपेभ्यः विरूपेभ्यो विश्वरूपेभ्यः विरूपेभ्य इति वि रूपेभ्यः विश्वरूपेभ्यश्च विश्वरूपेभ्य इति विश्वरूपेभ्यः शवः भो नमः नमो नमः नमो महद्भ्यः महद्भ्यः शुल्लकेभ्यः महद्भ्य इति महत् भः शुल्लकेभ्यश्च शवः नो नमः नमो नमः नमो रथिभ्यः रथिभ्यो रथेभ्यः रथेभ्य इति रथि यः अरथेभ्यश्च चाह नो नमः नमो नमः नमो रथे एभ्यः रथे रथपतेभ्य इति रथपति भः शवः वो नमः नमो नमः नमः सेनाभ्यः सेनाभ्यः सेनानिभ्यः सेनानिभ्यश्च सेनानिभ्य इति सेनानि यः शवः वो नमः नमो नमः नमः शत्रुभ्यः क्षत्रभ्यः सङ्ग्रहीतृभ्यः क्षत्रभ्य इति क्षत्रृहः सङ्ग्रहेतृभ्यश्च सङ्ग्रहेतृभ्य इति सङ्ग्रहेतृ यः च वः ओ नमः नमो नमः नमस्तक्षभ्यः तक्षभ्यो रथकारेभ्यः क्षभ्य इति दक्ष भः रथकारेभ्यश्च रथकारेभ्य इति रथ तारेभ्यः शवः मो नमः नमो नमः नमः कुलालेभ्यः कुलालेभ्यः कर्मारे सवः ो नमः नमो नमः नम पुञ्जिष्टे एभ्यः पुञ्जिष्टे एभ्यो निषादेभ्यः निषादेभ्यश्च शवः नमः नमो नमः नम इषुकृद्भ्यः इषुकृद्भ्योऽधन्मषद्भ्यः इषकृद्भ्य इतिषुकृतभ्यः धन्वक्रद्भ्यश्च धन्वक्रद्भ्य इति धन्वक्रभ्यः शवः नो नमः नमो नमः नमो मृगयोभ्यः मृगयोभ्यस्वनेभ्यः मृगयोभ्य इति मृगयो ह्यः स्वनेभ्यश्च स्वनेभ्य इति स्वनि यः शवः गो नमः नमो नमः नमःभ्यः स्वाभ्यः स्वपदेभ्यः स्वाभ्य इति स्वपदेभ्यश्च स्वपदेभ्य इति स्वपति नमः नम नमः